मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं त्रि ममासुरवरप्रधानम् श्रीगणेशाय नमः कश्यप उवाच गणेशव्रतपुण्येन मोहितः शङ्करः सदा तन्मना अभवद्देवो विप्रवेशधरो बभौ समागम्य स्मृत्वा, सगम्य स्मृवा विघ्नेश्वर शिव नाकला प्रदर्श्य मोहयाम सिमाचल जगद वरम वृणुयिच दाया मदधीनम चेन्ना विचारण द्विज उवाच उमां देहि नगाधीशान्यं व्याचे वरं परं तदस खेदसंयुक्तस्तूष्णी मे वा भवद्गिरिः तं चाधिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी उमा तं देहि मां ताद शिवोऽयं नात्र संशयः ततः स ददौ तस्मै सुदां प्रिये शिवस्वस्थानमागम्य देवैः सम्मानिदोऽ भवद लग्नं शुभं समालोक्य पूजयित्वा गजाननं देवादिभिः समायुक्तः पर्वतेशं ययौ शिवः हिमाचलप्रसन्नात्मा विवाहमकरोत्तदः शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः शिवां गृह्य महेशानः कैलासमगमत् स्वयं तयारे मे महायोगी तदस्कन्दो बभूवः गणेशानम् समाराध्यतारकम् दैत्यनायकम् जखान सुखसंयुक्तम् चकार सचराचरम् शिवशक्रिया समायुक्तो मोहितो मायया भृशम् तदधीनस्वभावेनातिष्ठन् नित्यम् महा कदाचित् पार्वती देवी सखीभिः सम्भृता स्थिता मनसा धारयामास धन्याहं सर्वभावदः शिवं त्यक्त्वा दक्षगृहे गदाहं मानसं युधा देहं त्यक्त्वा पुनर्जादा हिमाचलगृहे सुता देवेशो माम् तदस्त्यक्त्वा शङ्करः पर्वतान्तरे गतस्वयं स याचित्वा वृणान् मां पितरं प्रभुः किं त्यक्त्वा मां गतः शम्भुः किं पुनर्याजिताह्युत अधुना मदधीनः स वर्तते नात्र संशयः मदीया ममदा सर्वा पूर्णा जादा विशेषदः मानिनां रहस्यं तु मया संरक्षितं भवेद एवं मनसि हर्षेण धन्यात्मानं नगात्मजा मेने नित्यं तदत्सर्वा सख्यस्तां वचनं जगुः सख्य ऊचुः धन्यात्वं मानिनी मध्ये मानो जित्वादु शङ्करं तपःसारक्षितो देवि त्वदधीनः शिवो भवद तक्षुत्वा जगदम् पासातीव मानयुता भवद हास्यं चकार तत्रैव चित्रं देवि बभूवः तस्या हास्यात्समुत्पन्नः पुरुषः कामसन्निभः मम नामा महाभागो महान् पर्वतसन्निभः सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाचः कस्त्वं कस्मादिहायाधः कस्य किं च चिकीर्षसि पुरुष उवाच तव हा स्यात्समुत्पन्नं पुत्रं मां विद्धिमानदे आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावदः पार्वत्युवाच माया मानक्रुधपूर्णस्तस्मात्त्वं निर्गतस्वयं मम नामा भवस्वाद्यपुत्रमानपरायणः गणेशं भज भक्त्या त्वं सदे सर्वं प्रदास्यति तेन सर्वत्र विश्वास्मिन् विख्यातप्रभविष्यसि तदस्तस्मै महादेवी ददौ मन्त्रं षडक्षरम् गणेशस्य प्रहर्षेण विधियुक्तम् सुदायसा सतां प्रणम्य देवेशीं तपसे वनमाययौ तत्र जगमदैत्येशम्बरः कालचोदिदः पप्रच्च पार्वतीपुत्रस्थम् दृष्ट्वा को भवानिति किमर्थमिह सम्यादो वद मे महद शम्बर उवाच विद्यां दातुं महाभाग समायादोऽहमादराद समर्थस्त्वं तया नित्यं भविष्यसि संशयः यवमुक्त्वा महादैत्यो विद्यां नाना विधां ददौ आसुरीं तां ममो नाम साधयामास यत्नदह साधयित्वा स्वयं विद्यां कामरूपो बभूवः नाना सामर्थ्य संयुक्तस्ततो वै हर्षितो भवत शम्बरं प्रणिपत्यैव जगादवचनं हितम् भक्तियुक्तस्वभावेन कृताञ्जलिरुदारधीः ममासुर उवाच त्वया कृतं महाभाग महत्कार्यम् मदीयकम् अधुना शिष्यभूतं ते शाधि मां किं करोम्यहं शम्बर उवाच गणेशं शक्तिदत्तेन मन्त्रेणाराध्यमानद ब्रह्माण्डराज्यमुग्रं तं याजयस्व महाप्रभुं तत्त्वैश्च तत्त्वसम्भूदैर्न नमे मृत्युर्भवेत् प्रभो याच स्व सर्वभावेन नान्यं कञ्चिद्वरं परं वरान्लब्ध्वा महाभाग। महाभागमद्गेहेत् संगदो भव पश्चात् किंजित कुरुष्व याचेह मादराद तथेदि शम्भरं सोऽपि ममनामा नामा जगादः शम्भरस्वगृहं गत्वा हर्षयुक्तो बभूवः ममस्तत्र समासीनस्तपस्ते पे वायुमात्राशनो देवि ध्यात्वा कृगजाननं दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः प्राणशेषं मम तत्र ययौ दादुं वरान् स्वयम् आगदं गणनाथं स न बुबोधमहासुरः ध्यानसंस्थं गणाधीशस्तमुवाच दयायुधः श्रीगणेश उवाच वरान् ब्रूहि महाभाग ममते हृदि संस्थितान् दास्यामि तपसा तुष्ठो मन्द्रसेवनतः परं गणेशवचनं श्रुत्वा मम उन्मील्यलोचने पश्यन् विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूवः उद्धाय तम् नमस्कृत्य भूजयामासभकृदः पुनः प्रणम्य तं स्तों स्तोत्रम् समारभद ममासुर उवाच नमस्ते गणनाधाय गणानां पदये नमः गणपदप्रदात्रेते गणरूपप्रधारिणे विघ्नानां पदये तुभ्यं विघ्नानां विघ्नरूपिणे भक्तानां विघ्नहन्द्रेते इतरेषां प्रहारिणे अनाधानां प्रणानाथ नाधाय नाथदायिने नाधानां नाथरूपाय नाथाय तु नमो नमः ब्रह्मणां पदयेतुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः अमेय चैव रूप चक्तिपराय ते शक्तिभ्य श्रिदात्रे शक्तिशक्रे नमो नम परेभ्यस्तु परे पर परपद पराय पररूपाय परात्पर नमोस्तु दे। ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः विघ्नेश्वरानन्दविहारकारिण्नन्ददात्रे सकलानुगोत्रे सिद्धेश्च बुद्धेः पदये परात्मन् हे सर्वत्र नमो नमस्ते किं स्तौमि योगप्रथमेकदन्तं योगस्वरूपं परमार्थभूतं स्तोदुं न शक्ताः प्रभवन्ति वेदाशम्भुवादयो योगिन एव धुण्ठिं धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवम् गजाननम् अगम्यं योगिनां साक्षात्कृतकृत्योहमञ्चसा वरदोषिगणाधीश तदा मे तत्त्वभिकदा न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादः यद्यदिच्छामि तत्तन्मे सफलं भवतु आरोग्यादिसमायुक्तं मां कुरुष्व गजानन राज्यं ब्रह्माण्डकोलस्य देहि मे वाञ्छितप्रद सङ्ग्रामेण समं तत्र किञ्चिद्भवतु विघ्नप सदा विजयसंयुक्तमजेयं शङ्करादिभिः मां कुरुष्व गणाधीशामोकशस्त्रप्रधारिणम् श्रीगणेश उवाच दुर्घटम् कथितं सर्वं त्वया दैत्येन्द्रनायक तुष्टस्तथापि त्वयोक्तं ते भविष्यदी। स्तोत्रं भवत्कृतं मे च कामदं काममिच्छ भविष्यदिन सन्देहो भुक्ति मुक्तिप्रदं तथा एवमुक्त्वान्तर्दधे सौ गणेशो ब्रह्मणां पतिः ममासुरप्रसन्नात्मा भवच्छम्बरः गेहगः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रधानं नाम तृतीयोऽध्यायः ओ